उत्तरकाण्डं सर्गम् सिक्स् श्रीमहादेव उवाच एकदा मुनयः सर्वे यमुनातीरवासिनः आजग्मो राघवं द्रष्टुं कृत्वाग्रेदु कृत्वा ग्रेतुमुनिश्रेष्ठं भार्गवं च्यवनं द्विजाः समायादा रामा रामादभयकाङ्क्षिणः तान् पूजयित्वा परया भक्रिया रघुकुलोत्तमः उवाच मधुरं वाक्यं हर्षयन् मुनिमण्डलं करवाणि मुनिश्रेष्ठा किमागमनकारणं धन्योऽस्मि यदि यूयं माम् प्रीत्या गदाः दुष्करं चापि यत्कार्यं भवतां तत्करोम्यहम् आज्ञापयन्तु मां भृत्यं ब्राह्मणा दैवदं हि मे तच्छ्रुत्वा सहसा हृष्टश्च्यवनो मधुनामा महादैत्यः कृतयुगे प्रभो आसीतदिव धर्मात्मा देवब्राह्मणपूजकः तस्य तुष्टो महादेवो ददौ शूलमनुत्तमम् प्राहचारणेन यं सदुभस्मी भविष्यति रावणस्यानुजा भार्या तस्य कुम्भीनशी श्रुता तस्यां तु लवणो नाम राक्षसो भीमविक्रमः आसीद्दुरात्मा दुर्धर्षो देवब्राह्मणहिंसकः पीडितास्तेन राजेन्द्र वयं त्वां शरणं गताः तच्छ्रुत्वा राघवोप्याः मा मुनिपुङ्गवाः लवणं नाशयिष्यामि गच्छन्तु विकतज्वराः इत्युक्त्वा प्राह रामोऽपि भ्रातॄन् को वा हनिष्यति लवणं राक्षसं दद्याद्ब्राह्मणेभ्यो भयं महद तच्छ्रुत्वा प्राञ्चलिः प्राह भरतो राघवाय वै अहमेव हनिष्यामि प्रभो तदोरामं रामं नमस्कृत्य शत्रुघ्नो वाक्यमब्रवीद लक्ष्मणेन महत्कार्यं कृतं राघवसंयुगे नन्दिग्रामे महाबुद्धिर्भरतो दुःखमन्वभूद अहमेव गमिष्यामि लवणस्यवधाय च त्वत्प्रसादाद्रघुश्रेष्ठ हन्यां राक्षसं युधि तच्छ्रुक्त्वा स्वाङ्गमारोप्य शत्रुघ्नम् शत्रुसूदनः प्राहाद्यैवाभिषेक्ष्यामि मधुराराज्यकारणाद् आनाय्य सुसंभारान् लक्ष्मणेनाभिषेचने अनिच्छन्दमपि स्नेहादभिषेकमकारयद दत्त्वा तस्मै शरं दिव्यं रामशत्रुघ्नमब्रवीद अनेन जहिबाणेन लेवनम लोककण्टकम् सदु सम्पूज्य तच्छूलम् गेहे गच्छति काननम् तु जन्तूनां नाना प्राणिवधाय च सदुनायाधिसदनं यावद्वनचरो भवेद् तावदेव पुरद्वारि तिष्ठत्वम् धृतकार्मुकः योच्यते स त्वया क्रुद्धस्तदावध्यो भविष्यति तं हत्वा लवणं क्रूरं तद्वनं मधु संनिधं निवेश्य नगरं तत्र तिष्ठत्वं मेनुशासनाद् अश्वानां पञ्चसाहस्रं रथानां च तदर्थकं गजानां षटतानीह पत्नीनामयुधत्रयम् आगमिष्यति पश्चात्त्वमग्रे साधय राक्षस युक्त मूर्ध्यवघ्रा प्रशयामास राघव शत्रुघ्न मुनि साधमाशीर्रनंद्य शत्रु चक्रे यदा यण चोदि अत्वा मधुसुदम युद्धे मधुरा मकोत् सीताम जनपदाम चक्रे मधुरां दानम सीता सुषुवे पुत्रौ दव वाकश्रे मुस्तोर्नाम चक्रे कुशोज्येष नुजो लव क्रमेण विद्या संपन्नौ सीतापुत्रौ बभूवधूः उपनीतौ च मुनिना वेदाध्ययनतत्परौ कृष्णं रामायणं प्राह काव्यं बालकयोर्मुनिः शङ्करेण पुरा प्रोक्तं पार्वत्यै पुरहारिणा वेदोपबृंहणार्थाय तावग्राहयत प्रभुः कुमारौ स्वरसम्पन्नौ सुन्दरावश्विनाविव तन्त्रीतालसमायुक्तौ गायन्तौ च रदुर्वने तत्र तत्र मुनीनां तौ समाजे सुररूपिणौ गायन्तावभिदो दृष्ट्वा विस्मिता मुनयोऽब्रुवन् गंधर्व कि भुव वु देश पादेश अथवा चुर्मुखृ लोकसुस्म चिजीभि दृष्ट् दिशो ना ज्ञा दृशगीतवाद्यम दर्शि न्रावि च ंस्तुद्भिल मुनि प्रदिवासरम आसादे सुख मेका चिरं चिं अधरा मेधाधीं बहुदिणा यणमय सीता विधाय विपुल्युति ऋषय सर्वेजर्षयस्त ब्राह्मणाः क्षत्रिया वैश्याः समाजग्मुर्धिदृक्षवः वाल्मीकिरपि सङ्गृह्य गायन्तौ तौ कुशीलवौ जगामऋषिवाढस्य समीपं मुनिपुङ्गवः तत्रैकान्ते स्थितं शान्तं समाधिविरमे मुनिम् कुशः पप्रच्छ वाल्मीकिं ज्ञानशास्त्रं कथान्तरे भगवन् श्रोतुमिच्छामि सङ्क्षेपाद्भवतोऽखिलम् देहि नः संसृतिर्बन्धकथमुत्पद्यते दृढः कथं विमुच्यते देही दृढबन्धाद्भवाभिधाद वक्तुमर्हसि सर्वज्ञ मह्यं शिष्याय मुने वात्मीकिरुवाच शृणुवक्ष्यामि ते सर्वं संक्षेपात् बन्धमोक्षयोः स्वरूपं साधनं चापि मत्तश्रुत्वा यथोदितं तथैववाचरभद्रं ते जीवन्मुक्तो भविष्यसि देह एव महागेहमदेहस्य चिदात्मनः तस्याहङ्कार एवास्मिन् मन्त्री तेनैव कल्पितः देहगेहाभिमानं स्वं समारोप्य चिदात्मनि तेन तादात्म्यमापन्नस्वचेष्टितमशेषतः विदधाति चिदानन्दे तद्वासितवपुः स्वयं तेन सङ्कल्पितो देही सङ्कल्पनिघडावृतः पुरधारगृहादीनि सङ्कल्पयदि चानिशं सङ्कल्पयन्स्वयं देही परिशोचति सर्वदा त्रयस्तस्याहमो देहा अधमोत्तममध्यमाः तमः सत्त्वरजः सञ्ज्ञा जगधकारणं स्थिदेहे तमोरूपाद्धिसङ्कल्पान्नित्यं तामसचेष्टया अत्यन्तं तामसो भूत्वा कृमिकीडत्वमाप्नुयाद सत्त्वरूपो हि सङ्कल्पो धर्मज्ञानपरायणः अदूरमोक्षसाम्राज्यसुखरूपो हि तिष्ठति रजोरूपो हि सङ्कल्पो लोके सव्यवहारवान् परितिष्ठति संसारे पुत्रधारानुरञ्जितः त्रिविधं तु परित्यज्य रूपमेतन्महामदे सङ्कल्पं परमाप्नोदि पदमात्मपरीक्षये दृष्टिसर्वाः परित्यज्य नियम्य मनसा मनः सबाह्याभ्यन्तरार्थस्य सङ्कल्पस्य क्षयं गुरु यदि वर्षसहस्राणि तप्चरसी दारुणं पातालस्त भूस्तस्थि ते न्यिदुपये सकलोपशते अनाधे विकारे सुखे परम पवने पशमे में पौरुषेण परं गुरु सङ्कल्पतन्तौ निखिला भावाः प्रोधा किलानखचिन्ने न जानीमः क्व यान्ति विभवाः पराः निःसङ्कल्पो यथाप्राप्तव्यवहारपरो परोभव क्षये सङ्कल्पजालस्य जीवो ब्रह्म त्वमाप्नुयाद अधिगत परमार्थतामुपेत्य प्रसभमपास्य विकल्पजालमुच्चैः अधिगमयपदं तदद्वितीयं विदधसुखाय सुषुप्तचित्तवृत्तिः इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे षष्ठः सर्गः ओम्